गणेशपुराणं क्रीडाखण्डम् अध्यायं सिक्स्टि त्रि दूतावूचुः देवान्तको महारौद्रो रौद्राय दैत्याय समावृतः असङ्ख्याय विविधै कालभेदिदैव्योममस्तकः वयं तद्दर्शनभ्रान्तः पलाय पलायत्वा नगरीवेष्टिदा राजन्यत् करिष्यसि तत्कुरु क उवाच श्रुत्वा दोदमुखाद्राजा वृत्तान्तं समकम्पद अदिम्लानतया यादो बालकं सविनायकम् क्रीडन्तं शिशुमध्येदं वृत्तान्तं सर्वमब्रवीद राजोवाच परब्रह्मण् नमस्तेस्तु लीला मानुषविग्रह चराचरगुरो नानालीलाकर नमोऽस्तु दे अनेकशो वयं त्रादास्त्वया बालस्वरूपिणा इदानीमपि देवांतकात् प्रभो क का उवाच एवं सम्प्रार्थितस्तेन काशिराजेन बालकः देहं कृत्वा विशालं स सिंहारूढो धनुष्करः सिद्धिबुद्धियुतो गर्जन्नादयन् गिरिकन्दराः तेजसा लोपयन् सूर्यं वमन्नग्निकणान्मुखाद बाणं खड्गं च परशुं धनुर्हस्ते विधारयद नभो मार्गेण नगरात् बहिर्यादो विनायकः स्वेडितेन स दैत्यानां मनांसि परिकम्पयन् ददर्शदुष्टसैन्यं तं देवान्तकमर्शणम् असङ्ख्यातास्तदा दैत्या बभ्रमो इव दृष्ट्वा नानाविधं सैन्यं सिद्धिं प्रोवाच विघ्नराड एकाकिनानसाध्येयं सेनानाविधीयतां स्वकीया साधितुं दैत्यं कुरु शीघ्रमिदं वचः क तदसिद्धिर्नमस्कृत्वा परमात्माङ्पङ्कजं देवान्तकं योद्धयितुं ययौ चाथ जगर्ज च निनादै सर्वजन्तूनां दैत्यानां भयदायिनी सचालशेषोऽद्यौश्चापि पर्वदा वृक्षसञ्चयाः सद्गर्जितमहाराह्वै प्रदिशद्वैरनेकषः सस्मारचाष्टसिद्धिस्सा ताश्च यादामुदान्विताः अणिमा प्रथमं प्राप्ता गिरिमा तदनन्तरं महिमा लखिमा चापि सम्प्राप्ते तदनन्तरम् प्राप्तिश्चैव दुप्राकाम्यं वशित्वं च समाययौ ईशित्वं तदनुप्राप्तं तासां सैन्यमभूदनु गजाश्वरथपादान्तं नानायुध विराजितम् वर्षाकाले यथा नद्यः सागरं यान्धि तथा सैन्यम् दशदिशो यादिस्म युग्धलालसम् असङ्ख्यवाद्यनिर्घोषम् वीरषद्वैर्नदद्भृशम् कृतान्तसदृशान् वीरान् भोगोलप्राशनोत्सुकान् दृष्ट्वा देवान्तकस्वान्तं चिन्तयामासचेतसि बालं क्षणेन शेष्यामीत्येवं युद्धाय चागदः अगस्मादीदृशं सैन्यं कुदये दद्विनिर्गतं दृष्टं विचित्रसामर्थ्यं बालस्य मायया कृतं मरिष्ये मारयिष्ये वा जीवत्साज्यो यशो न एवं वदति दैत्येन्द्रे सेनान्यप्राब्रुवन्वचः वयं योत्स्यामहे सैन्ये रक्षपृष्ठं जयो भवेद पीत्वा वाक्यामृतं तेषां हृष्टो देवान्धगोब्रवीद सम्यग्ुक्तं महावीरायान् जयोस्तु मम वाक्येन भवतां पुण्यकर्मणाम् आशिषं परिगृह्यैव नमस्कृत्वा सुरान्तकं कर्दमो नाम दैत्योध ययौ व्यूहं रथाकृतिं दीर्घदन्तो ययौ चक्रव्यूहं परमदुर्जयम् गरिम्णा वीरमुख्यस्तुरचितं वीरमोहनं प्रधिम्ना पालितं व्यूहं तालजङ्घो ययौ मुदा महिम्ना रचितं व्यूहं यक्ष्मनामासमाययौ प्राप्त्या विरचितं व्यूहं ययौ कण्डासुरो महान् प्राकाम्यरजितं व्यूह रक्तकेशो बलान्वितं कालान्तकोयययौ व्यूहं वशिता रचितं परम् ईशिता व्यूहं दुर्जयो भिययौ बली एतेषां वचसा शक्यं वक्तुं सामर्थ्यमञ्चसा अष्टव्यूहानयुध्यन्तदैत्या अष्ट ौ महाबलाः परस्परं विनिघ्नः परान् परमदुर्जयान् शरधारा विमुञ्चन्दो जलधारा यथा घनाः चेच्चिदुरुत्तमाङ्गानि शस्त्रैर्ना विविधैर्भटाः निखतैश्च ददा वौरैर्गजैरश्वैर्वसुन्धरा पूरुभिर्जानुभिर्हस्तैश्चिन्नैरासीत् सुदुर्गमा खेडानि पुरतः कृत्वा जघोपादांश्च के जन उड्डीयगिरिवत् केचित् पेतुर्वीरेषु चूर्णिदं रजोऽन्धकारे नाज्ञासीत् स्वीय स्वीयं परस्परम् तदो निपेदसा दैत्या देवदा भुवि देवाह दैत्या कैरवान्वा कबंध युयुस्त मुधुस्ापण पुष्पिदा पुष्ता किंशुकायध शुक्रस्तत्र मृदान्तैत्यानुज्जीवयदि विद्यया अष्टव्यूहा ययुश्चिन्तां बलान्विताः ईशितायै तथ प्रोजुः सर्वे ते क्रोधवशा देवा कृत्या कडाक्षेणतया ज्ञप्ता भार्गवन्तु निजे भगे कृत्वा तदन्तर्दधे सा पश्चात्तत्याज बर्बरे तेन बर्बरदेशीयं यं तं वदन्ति मनीषिणः ततो मुमुदिरे देवा युयुधश्च बलान्विदाभा निगन्यमाना दैतेयाः पलायनपराययुः केचिच्च चरणं प्राप्ता रक्षरक्षेदि चापरे प्रत्युचुर्देवगन्धर्वानणिमाधिकृतांस्तदा कदा विजयिनो दैत्या कदाचिद्देवता गणाः निरदा परस्पर अभवन्युद्धन परिण्धम भूदोर तस्परते युद्धगणेशपुराणे क्रीड़ाखंडे बालचरिते शुक्रत्यागो नाम शुक्रतागोनाम ओ